प्रस्थानकालोचितचारुवेशः स स्वर्गिवर्गैरनुगम्यमानः ततः कुमारशिरसानतेन त्रैलोक्यभर्तुः प्रणनामपादौ जहीन्द्रशत्रुम् समरेमरेश पदम् स्थिरत्वं नयवीरवत्स इत्याशिषा तम् प्रणमन्तमीशः मूर्धन्युपाघ्राय मुदाभ्यनन्दत् प्रह्वीभवन्नम्रतरेण मूर्ध्ना नमश्चकाराङ्घ्रियुगम् स्वमातुः तस्याः प्रमोदाश्रुपयः प्रवृष्टिः तस्या भवद्वीरवराभिषेकः तमङ्कमारोऽप्यसुताहिमाद्रेः आश्लिष्य गाढम् सुतवत्सलासा शिरस्युपाघ्राय जगादशत्रुम् जित्वा कृतार्थी कुरु वीरसूम्माम् उद्दामदैत्येश विपत्तिहेतुः श्रद्धालुचेता समरोत्सवस्य आपृच्छ्यभक्त्या गिरिजागिरीशौ ततः प्रतस्थेऽभि दिवम् कुमारः देवम् महेशम् गिरिजाम् च देवीम् ततः प्रणम्यत्रिदिवौकसोऽपि प्रदक्षिणीकृत्य च नाकनाथ पूर्वासमस्तास्तमथानुजग्मुः अथ व्रजद्भिः स्त्रिदशैरशेषैः स्फुरप्रभासुरमण्डलैस्तैः नभो बभासे परितो विकीर्णम् दिवापि नक्ष त्र गणैरिवोऽग्रैः रराजतेषाम् व्रजताम् सुराणाम् मध्ये कुमारोऽधिककान्तिकान्तः नक्षत्रताराग्रहमण्डलानाम् इव त्रियामारमणो नभोऽन्ते गिरीशगौरीतनयेन सार्धम् पुलोमपुत्री नक्षत्रपथं मुहूर्तात, प्रपेदिरे प्रपेदिरेलोकमथात्मनीनम् ते स्वर्गलोकम् चिरकालदृष्टम् महासुरत्रासवशम् वदत्वात् सद्यः प्रवेष्टुम् न विषेहिरेतत् क्षणम् व्यलम्बन्तसुराः समग्राः पुरोभवत्वम् न पुरो भवामि नाहम् म् सुरास्तत्क्षणमेव भीताः स्वर्गम् प्रवेष्टुम् कलहम् वितेनुः सुरालयालोकनकौतुकेन मुदा शुचि स्मेरविलोचनास्ते दधुः कुमारस्य मुखारविन्दे दृष्टिम् द्विषत्साध्वसकातरान्ताम् सहेलहासच्छुरिताननेन्दुः ततः कुमारः पुरतोभविष्णुः स तारकापातमपेक्षमाणः रणप्रवीरो भीत्यालमद्यत्रिदिवौकसोमी स्वर्गम् भवन्तः प्रविशन्तु सद्यः अत्रैव महासुरो वः स्वर्लोकलक्ष्मीकचकर्षणाय दोर्मण्डलम् वल्गति यस्य चण्डम् इहैव तच्छोणितपानकेलिम् अह्नाय शक्तिर्ममासौ अहत प्रभावसारा सुमहःप्रसारा स्वर्लोकलक्ष्म्या विपदावहारेः शिरो हरन्ती दिशतान्मुदम् वः इत्यन्धकारातिसुतस्य दैत्यवधाय युद्धोत्सुकमानसस्य सर्वं शुचिस्मेरमुखारविन्दम् वचसाननन्द, सांद्र गीर्वाणवृंद वचसाननंद सांद्रमोदुलोपगू सर्वांगसंफुल्रेत्र तस्ोत्रीबरेण निरुछनम चारुचकारशक्र घनप्रमोदा श्रुतरङ्गिताक्षैः मुखैश्चतुर्भिः प्रचुरप्रसादैः अथो अचुम्बद्विधिरादिवृद्धः षडाननम् षट्सुशिरः सुचित्रम् तम् मुदा कुमारम् त्रिपुरासुरारेः आनन्दयन् वीरजयेति वाचा गन्धर्वविद्याधरसिद्धसङ्घाः दिव्यर्षयः शत्रुविजेष्यमाणम् तमभ्यनन्दन् किल नारदाद्याः निरुञ्छनम् चक्रुरथोत्तरीयैः चामीकरीयैर्निजवल्कलैश्च ततः सुराः शक्तिधरस्य तस्य अवष्टम् भतः साध्वसमुत्सृजन्तः उत्सेहिरे स्वर्गमनन्तशक्तेः गन्तुम् वनं यूथपतेरिवे भाः अथाभिभृष्ठम् गिरिजासु तस्य पुरन्दरारातिवधम् चिकीर्षोः सुरानिरीयुस्त्रिपुरम् दिधक्षोः सुराङ्गणानाम् जलकेलिभाजाम, प्रक्षालितै संततमंगरागैहि, प्रपेदिरे पिञ्जरवारिपूराम् स्वर्गौकसः स्वर्गधुनीम् पुरस्तात् दिग्दन्तिनाम् वारिविहारभाजाम् कराहतैर्भीमतरैस्तरङ्गैः आप्लावयन्तीम् मुहुरालवाल श्रेणीम् तरुणाम् निजतीरजानाम् लीलारसाभिः सुरकन्यकाभिः हिण्मी सिकताच मणिक्यगर्भाताकर्णतीरारवे सौरभ्यलुभ्रमरोपगीत हिण्य हंस वलिके चामीकरीयैः कमलैर्विनिद्रैः च्युतैः परागैः परिपिङ्गतोयाम् कुतूहला द्रष्टुमुपागताभिः तीरस्थिताभिः सुरसुन्दरीभिः अभ्यूर्मिराजिप्रतिबिम्बिताभिः मुदम् दिशन्तीम् व्रजताम् जनानाम् ननन्दसद्यश्चिरकालदृष्टाम् विलोक्यशक्रः सुरदीर्घिकाम् ताम् अदर्शयत्सादरमद्रिपुत्री महेशपुत्राय ततः पुरोगः स कार्त्तिके यः पुरतः परीतः सुरैः समस्तैः सुरनिम् नगाम् ताम् हा। अपूर्वदृष्टामवलोकमानः स विस्मयस्मेरविलोचनोऽभूत् उपेत्यताम् तत्र किरीटकोटि न्यस्ता भक्ति परह न्यस्ताजलिभक्तिपर कुमार गीर्वाणवृंदी प्रणुता नम्रेण मूर्ध्ना मुदि वे प्रणर्तिरसरोजराजि पुपरी भ मिल्मोर्मि कपोलपालिश्रमवारिहारि भेजे गुहम् तम् सरितः समीरः ततो व्रजन् नन्दननामधेयम् लीलावनम् जम्भजितः पुरस्तात् विभिन्नभग्नोद्धृतशालसङ्घम् ेक्षाञ्चकार स्मरशत्रुसूनुः सुरद्विषोऽपप्लुतमेवमेतत् वनम् बलस्य द्विषतो गतश्रि इत्थम् विचिन्त्यारुणलोचनोऽभूत् निर्लूनलीलोपवनामपश्यत् दुःसञ्चरीभूतविमानमार्गाम् विध्वस्तसौधप्रचयाम् कुमारः विश्वैकसारामरावतीम् सः गतश्रियम् वैरिवराभिभूताम् दशाम् सुदीनामभितो दधानाम् नारीमवीरामिव तामवेक्ष्य स बाढमन्तःकरुणापरोऽभूत् दुश्चेष्टिते देवरिपौ सरोषः तस्याविषण्णः समरायचोत्कः तथाविधाम् ताम् सविवेशपश्यन् सुरैः सुराधीश्वरराजधानीम् दैतेयदन्त्यावलिदन्तघातैः क्षुण्णान्तरास्फाटिकहर्म्यपङ्क्तीः महाहिनिर्मोकपिनद्धजालाः स वीक्ष्य तस्याम् विषसादसद्यः उत्कर्ण चामीकरपङ्कजानाम् दिग्दन्तिदानद्रवदूषितानाम् हिरण्यहम्स व्रजवर्जितानाम् विदीर्णवैदूर्यमहाशिलानाम् आविर्भवद्बालतृणाञ्चितानाम् तदीयलीलागृहदीर्घिकाणाम् स दुर्दशाम् वीक्ष्य विरोधिजाताम् विषादवैलक्ष्यभरम् बभार दन्तक्षतहेमभित्ति सुतन्तु तद्दन्तिदन्तक्षतहेमभित्ति सुतन्तुजालाकुलरत्नजालाम् निन्ये सुरेन्द्रेण पुरोगतेन स वैजयन्ताभिधमात्मसौधम् निर्दिष्टवर्त्मा विबुधेश्वरेण सुरै समग्रै रनुगम्यमानः प्राविशत्तम् विविधाश्मरश्मि छिन्नेन सोपानपथेन सौधम् निसर्गकल्पद्रुमतोरणम् तम् स पारिजातप्रसवस्रगाढ्यम् दिव्यस्तनम्रैत प्रविष्ट प्रमद प्रपेद पाद महर्षे किल कश्यप कुलृद्ध्य सुरा सुरा प्रदक्षिणीजि षड्भिः शिरोभिः सनतैर्ववन्दे स देवमातुर्जगदेकवन्द्यौ पादौ तथैव प्रणनामकामम् मुनेः कलत्रस्य च तस्य भक्त्या प्रह्वीभवन् शैलसुतातनूजः स कश्यपः सा जननीसुराणाम् तमेधयामासतुराशिषा द्वौ जेतामृधे तारकमुग्रवीर्यम् स्वदर्शनार्थम् समुपेयुषीणाम् सुदेवतानामदितिश्रितानाम् पादौ ववन्दे पतिदेवतास्तम् आशीर्वचोभिः पुनरभ्यनन्दन् पुलोमपुत्रीम् विबुधाधिभर्तुः ततः शचीम् नाम कलत्रमेषः नमश्चकार स्मरशत्रुसूनुः तमाशिषा सा समुपाचरच्च अथादितीन्द्रप्रमदाः समेताः तामातरः सप्तघनप्रमोदाः उपेत्य भक्त्या नमते महेश पुत्राय तस्मै ददुराशिषः प्राक् समेत्य सर्वेऽपि मुदम् दधानाः महेन्द्रमुख्या स्त्रिदिवौकसोऽथ आनन्दकल्लोलितमानसन्तम् सभ्यषिंचन प्रतनाधिपत्ये सकल विबुलोक स्रस्शोकु विजयाश प्राप्तुवकाश अजन हरसुते वीण तेन अखिल प्य लक्ष्मीमनूनाम्